व्यक्ताव्यक्तमिदम् न किञ्चिदभवत् प्रक्षये मायाम् गुणसाम्यरुद्ध विकृतौ त्वया गतायाम् लयम् च समभुन्नान्नो न रात्रिस्थितिस्तत्रैकस्त्वमशिष्यतः किल परा नन्द कालः कर्म गुणाश्च जीवनिवहा विश्वम् च कार्यम् विभो चिल्लीलारति मे युषि त्वयि तदा निर्लीनता मायुः तेषाम् नैव वदन्त्य सत्त्वमयि भोः शक्त्यात्मना तिष्ठताम् भूयो भवेत्सम्भवः एवम् च द्विपरार्धकाल विगता वीक्षाम् सि सृक्षात्मिकाम् बिभ्राणे त्वयि चुक्षुभिः त्रिभुवनी भावाय माया स्वयम् मायातः खलु कालशक्तिरखिला च प्रादुर्भूय गुणान् विकास्य विदधस्तस्या माया सन्निहितो प्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्ताम् प्रतिबिम्बितोऽपिविशिवान् जीवोऽपि नैवापरः कालादिप्रतिबोधिताथ भवता सञ्चोदिता च स्वयम् माया सा खलु महानुच्यते तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः जीवेस्मिन् खलु निर्विकल्पमहमेत्युद्बोध निष्पादकः चक्रेऽस्मिन् स विकल्प महान् खल्पसौ सम्पुष्टम् त्रिगुणैस्तमोति बहुलम् विष्णो भवत्प्रेरणात् सोऽहम् च त्रिगुण क्रमात्रिविदता मासाद्य वैकारिको भूयस्तैजसतामसा विधि भवन्नाद्येन सत्त्वात्मना देवानिन्द्रियमानिनो विदुविधे श्रीरुद्रशारीरिकान् भूमन्मानसबुद्ध्यहङ्कृतमिळच्चित्ताख्यवृत्यन्वितम् तच्चान्तःकरणम् विभो तव बलात् स त्वांश एवासृजन् जातस्तै च सतो शब्दो जनि शब्दद्व्योमततः सर्जित विभोः स्पर्शम् ततो मारुतम् तस्माद्रूपमतो महोत चरसम् तोयम् च गन्धम् महीम् एवम् माधवपूर्वपूर्वकलनादाद्याद्यधर्मान्वितम् भूतग्राममिमम् त्वमेव भगवन् प्राकाशयस्तामसात् एते भूतगणास्तन्द्रियगणा देवाश्च जाताः पृथङ् नो शे कुर्भुवनाण्ड निर्मित विधौ देवैरभिस्तदा त्वम् नानाविध सुप्तिभिर्नुत गुणस्तत्त्वान्यमुन्या विशंश्चेष्टा शक्तिमुदीर्यतानि घटयन् हैरण्यमण्डम् व्यधाः अण्डम् तत्खलु खलु पूर्वसृष्ट सलिले तिष्ठत् सहस्रम् समा निर्भिन्दन्न कृताश्चतुर्दश जगद्रूपम् विराडा त्राय स्वसर्वामयात्